चतुर्दशोऽध्यायः द्वितीयभाग पाश्चात्यते सभ्रमणात् तथैव आङ्गलशिक्षणा उद्भूत्वा स्वामिहृदये समाजविषया खलु योगानन्दति स्वामि स्वामिशिष्य उवाद च एवंविधानि वाक्यानि स्वमित्राणि कदाचर श्रुत्वेदं कथनं श्यामे प्रथमं नर्मभाषया प्रत्युवाच ततो जातो गाम्भीर्यं समुपासितः भावसम्पूर्णशब्दैः मित्रवाक्यान्न मित्रवाक्यान्नखण्डयत् स्वदेशवासिनां दुःखम् अधिकृत्य स्व उक्तवान् एतादृशी स्थितौ भक्ति मुक्त्यादिकमशेषतः अप्रधानम् अभूत्कर्म योगो मोक्षो भवत्यपि आवेशसहितं तेन यदा दीर्घमभासतरुद्धकण्ठोद्भवद्गात्रम् सकलं कम्पितं तथा सहसा नेत्रयुगुले वह्निज्ज्वाला प्रकाशिता गतवान् समीपस्थां कक्षाम् अपि गतास्तत्र निमेषानन्तरं यदा वाष्पार्द्र नैरोध्यान मग्नः स्वामी विलोकितः एका घटी यदा याता स्वामी विधमवाप्तवान् सम्भाषणस्य विषयं सुहृदपर्यवर्तयन् अन्तरात्मा तदा तस्य जदागारेत्यभाषत सः शिष्या गुरोर्वाक्यम् स्मृतवन्तश्च तत्क्षणे नरेण्यदासकोऽस्तीति जानीयात् परमार्थतः परित्यज्य निजं देहम् इत्युक्तं गुरुनैकदाम् एतस्मात् तदारभ्य स्वामिनः पद्धतिं प्रति सह शिष्यैकृतं नैव गुणदोषविवेचनं विवेकानन्दवर्यस्य विवे रूपेण गुरुरेवही कार्याणि कुरुते चेति सतीर्थैश्च निरूपितम् ध्यानादिनावगाह्यवगाहने परब्रह्मणि सर्वदा प्रावण्यं सामि चित्ते भू यथैव गुरुचेतसे सेवनार्थं मनुष्याणां बलात्कारेण तन्मनः आनेतव्यम् अभूत्तेन भूयो बोधतलं प्रति ब्रह्मणि प्रेमनिस्तुल्यं सममेवच, सममेव च मर्त्युःखविनाशाय सोत्कण्ठं तस्य मानसम् एतयो तुलनं तेन कर्तव्यं स्यात्कदाचर नरार्तिनाशनोत्कण्ठा तदा विजयिरे भवे प्राप्नुया स यदानन्दं समाधिक्रियते यदा मृतदुःखविनाशार्थम् तत्प्रहसं स सत्यते एषा प्रवणता तस्य सः शिष्यान् प्रतिशपि सङ्क्रान्ता तेऽपि लग्नाश्च दीनमानसेवते देवं रीत्या समालोक्य प्रारम्भं निजकर्मणः विवेकानन्दवर्योऽभूत् अत्यन्तं तिष्ठमानसः अस्मिन् कालावधो बेलोड् मठस्य स्थापनं कृतं स्वामिना यत्र विहितं सन्न्यासी जनशिक्षणम् आलम्बसारिते स्थाने प्राक्काले बेलुरग्रामं प्रति तस्य स्थानान्तरम् अभूत् पुनः गुरुदेवस्य भक्तस्य कस्यचिद् गृहसीमन्मनी उद्यानभवने जातां व्यवहारा मठस्य च तस्याधीने भवत्पश्चात् रामकृष्णमीषणतसा द्वयोरपि व्यवहारा व्यक्तरूपेण निश्चिताः धर्मप्रचारणं दीन जनानां परिसेवनम् इत्यादिकमशेषेण मिशने समाचरे अध्यात्मशिक्षणं ध्यानं प्रार्थनाराधनादिकं मठद्वारा क्रियेतेति व्यवस्थितम् तथापि मिश्र नित्यस्य मठस्यापि प्रवर्तनं नियन्त्रणे च नेतृत्वे मठस्य शादिति ध्रुवं शाखा सर्वस्थाने सुभारते तत्पश्चात् प्रसिता बेलु